पिदृप्रार्थना अङ्गिरसो नः पिदरो घनम् संहिता अङ्गिरसो नः पिदरो न भग्वा अधर्वाणो भृगव सोम्या सह तेषां वयवंसुमदौ यज्ञियानामपि भद्रे सौमनस्ये स्यामघन अङ्गिरसो नो नो अङ्गिरसो अङ्गिरसो नः नो अङ्गिरसो अङ्गिरसो नः पिदरः नो नः पिदरो नो नः पिदरो पिदरो न नवग्वा अधर्वाणो अधर्वाणो नवग्वा पिदरपिदरो नवग्वा अधर्वाणः नवग्वा अधर्वाणो अधर्वाणो नवग्वा नवग्वा अधर्वाणो भृगवो भृगवो अधर्वाणो नवग्वा नवग्वा अधर्वाणो भृगवः अधर्वाणो भृगवो भृगवो अधर्वाणो अधर्वाणो भृगव सोम्या ससोम्यासो भृगवो अधर्वाणो अधर्वाणो भृगव सोम्या सह भृगव सौम्यास यदि सोम्या सः तेषां वै वयं तेषां तेषां वय गं सुमदौ सुमदौ वयं तेषान्तेषां वय गं सुमदौ वय गं सुमदौ सुमदौ वयौ वयगं सुमतौ यज्ञियानाम् यज्ञियानान् सुमदौ वयं वयगुं सुमदौ यज्ञियानां सुमदौ यज्ञियानां यज्ञियानागुं सुमदौ सुमदौ यज्ञियानामप्यपि यज्ञियानागुं सुमदौ सुमदौ यज्ञियानामपि सुमदाविधि सुमतौ यज्ञियानामप्यपि यज्ञयानां यज्ञयानामपि भद्रे भद्रेऽपि यज्ञियानां यज्ञयानामपि भद्रे अपि भद्रे भद्रेप्यपि भद्रे सौमनस्य सौमनस्य भद्रेऽप्यपि भद्रे सौमनसे भद्रे सौमनसे सौमनसे भद्रे भद्रे सौमनसे सौमनसे भद्रे भद्रे सौमनसे श्याम सौमनसे श्याम श्यामेति श्याम